हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे त्रिषष्टितमः सर्गः कुम्भकर्णस्य रावण गृहे प्रवेशो रामाद्वयं सूचयित्वा रावणेन तस्य शत्रुसेना संहरणाय प्रेषणम् सतो राक्षसशादूलो निद्रामाद समाकुलः राजमार्गं श्रियाजुष्टम् ययो विपुलविक्रमः राक्षसानां सहस्रैश्च मृतः परमधुर्जयः गृहेभ्यः पुष्पवर्षेण किर्यमाणसदा ययो स्व हेमजाल भानुभास्वर दर्शनम् ददर्श विपुलं द्रम्यं राक्षसेन्द्र निवेशनम् प्रतरा सूर्यैवा भ्रजालम् प्रविश्य रक्षोऽधिपते निवेशनम् ददर्श दूरे ग्रजमानसन्मासनस्थम् स्वयम्भुवम् शक्रैवासनस्थम् भ्रातु सः भवनम् गच्छन् रक्षोगर्ण समन्वितः कुम्भकर्णपदन्यासी अकम्पायत मेदिनीम् सोऽभिगम्य गृहम् भ्रातु कक्षामभिविगाह्य च ददर्शोद्विघ्नमासीनम् विमाने पुष्पके गुरुं अथ दृष्ट्वा दशग्रीवम् कुम्भकर्णमुपस्थितम् तूर्णम् उत्थाय संवृष्ट सन्निकर्षम् उपानयत् अथासेनस्य पर्यङ्के कुम्भकर्णो महाबलः भ्रातुर्ववन्दे चरणो किं कृत्यमिति चाब्रवीत् उत्पत्ति चयनम् मदितो रावणः परि शश्वजे स्वभ्रात्रासम् परिष्वक्तो यथा वैश्चाभिनन्दितः प्रतिपेदे वरासनम् ततरासनमाश्रित्य कुम्भकर्णो महाबलः संरक्त नयन क्रोधात् रावणम् वाक्यमब्रवीत् किमर्थम् अहमादृत्य त्वया राजन् प्रबोधितः शंसकस्माद्भयम् तत्र को वा प्रेतो भविष्यति भ्रातर रावणक्रुद्धम् कुम्भकर्णमवस्थितम् रोषेण परिवृत्ताभ्याम् नेत्राभ्याम् वाक्यमब्रवीत् अद्य ते सुमहान् काल शयानस्य महाबलः सुषुप्तस्तम् न जानीषे मम राम कृतम् भयम् एष दाश्रुति श्रीवान् सुग्रीवसहितो बली समुद्रम् लङ्घयित्वा तु मूलम् नः परिकृन्तति हन्त पश्य सुलङ्कायाम् वनानि उपवनानि च सेतुना सुखमागत्य वानरै कार्णवम् कृतम् ये राक्षसा मुख्यतमा हता से वानरयुधि वानराणाम् क्षयम् युद्धे न पश्यामि कथञ्चन न चापि वानरा युद्धे जितपूर्वाय कदाचनः तते तदेतभयमुत्पन्नम् त्रायस्वेह महाबलः नाशय त्वम् इवान् इमानद्य तदर्थम् बोधितो भवान् सर्वक्षपितकोशम् च सप्तमभ्युपद्यमाम् त यस्वे माम् पुरीम् लङ्काम् बालवृद्धावशेषिताम् भ्रातुरर्थे महाबाहु कुरु कर्म सुदुष्करम् मय्योक्तपूर्वो भ्रता कचिद पर मम च स्नेह परा संभावना चे देश युद्धेशुशो राक्षसिव्यूह निर्जिता चासुरायु तदेत सर्विष्ठ वीर्यम भीम पराक्रम नी ते दृश्यते सदृशो बलि कुरुष्व मे प्रियितमेतदुत्तमम् यथा प्रियम् प्रियरण बान्धव प्रिय स्वतेजसा व्यथ सपत्नवाहिनीम् शरद्धनम् पवनैवोद्यतोमहन् इत्याश्ये श्रीमन् रामायणे वाल्मीकी अधिकारे युद्धकाण्डे द्विषष्टि समत्सर्गता